गरुडपुराणं ब्रह्मकाण्डम् मोक्षकाण्डम् अध्यायम् सेवेन्टीन् गरुड उवाच चतुर्जन्मसुवैकृष्ण सच्याद्यै सहभारती एकदेहविशिष्टैव भुवि जादेति चोक्तवान् कारणं ब्रूहि मे ब्रह्मन् शिष्याय तव सुव्रत गरुडेनैव मुक्तस्तमुवाच मधुसूतनः श्रीकृष्ण उवाच विशिष्टदेहसम्प्राप्तौ भारत्याः पक्षिसत्तम वक्ष्यामि कारणमीन्द्र सावधानमनाशृणु पुराकृतयुगेवीन्द्ररुद्रभार्या च पार्वती इन्द्रभार्या शचीदेवी यमभार्या च श्यामला अश्विभार्या उषा देवी, देवी भर्तृभिसहिताखग दा। ब्रह्मलोकं ययुस्तत्र ब्रह्माणं ददृश्युस्तदा हावं भावं विलासं च दर्शयामासुरञ्जसा दृष्ट्वा ता ब्रह्मा शशाप खगसत्तम उद्धताश्च यतो यूयम् मनुषीं योनिमाप्स्यद तत्र स्वभर्तृसंयोगमवाप्स्यथ खगेश्वर एवं शप्तास्तु ताः सर्वा आजग्मुर्मेरुपर्वतम् तत्रोपविष्टम् ब्रह्माणम् वञ्जयामासुरञ्जसा तूष्णीमेव स्थिदेवीन्द्रवञ्जयन्त्यस्थिदा पुनः तदस्तूष्णीम् स्थितम् वीन्द्रवञ्जयामासुरञ्जसा त्रिवारानन्दरम् ब्रह्म शब्दवां स्ता महाप्रभुः त्रिवारं वञ्चनं यस्मादेकवारं च दर्शनं किं चाश्रुत्वा दपश्चाच्च दुर्जन्मसुभूतले येकदेहान्मानुषत्वं भविष्यदि न संशयः द्वितीये जन्मनि तथा अन्यगात्वमपाप्स्यथ तृतीये जन्मनि तथा भर्तृसंयोगमाप्स्यथ जन्मनाद्ये च दुर्दे च नान्यगात्वमवाप्स्यथ तथा स्वभर्तृसंयोगं नाप्वाप्स्यथ ना सर्वशः एवं शब्दास्तुता सर्वा पक्षि पक्षिसप्तम तदा विचारयामासुर्मिलित्वा मेरुमूर्धनि ब्रह्म शापस्त्वनिर्वाय उपायै शदशोऽपि च नीचैः समागमो निन्द्यस्तथैव च विपत्तिदः उत्तमेन जसङ्गेन दैवेनाप्यर्धतो भवेद् देवानामुत्तमो वायुस्तदर्थं सङ्गमाचरेद विचार्यैव मुमाद्या भारत्या सेवां चक्रिरे सहस्र वत्सरान्ते सा भारती तोषिताब्रवीद मत्सेवां च किमर्थं वै ह्याचरिष्यन्ति सुव्रताः तस्यां रक्ताश्च ताद्देव्यस्त त्वब्रुवन् स्वचिकीर्षितं पुरा वयं तु शप्तास्म ब्रह्मणा क्रोधरूपिणा एकदेहान्मनुष्यत्वमवाप्स्यधवराङ्गनाः चतुर्धजन्मन्यप्येवं द्वितीये जन्मनि प्रभो समाप्स्य धान्यगात्वं चेत्येवं शप्ताहभामिनि अस्माकं वायुना देव नान्यगत्वं न दोषभाक अदस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु अत्युक्ताभिरथ च तथैत्युक्त्वा द्विजोत्तमा सा पार्वत्यादिभिर्युक्ता भारदीत्यभवद्भुवि शिवनाम्नो द्विजस्यैव गृहे साधुकुमारिका कर्मैक्यार्थं तपश्चक्रेः विष्णोश्च शिवसंज्ञिनः तपसातोषिदा विष्णुः महाप्रभुः वरं प्रादा तृतीयस्मिन् कृष्णजन्मनिभो स्त्रियः सम्यक् संयोगो भविष्यति विना भवम् यतो न याजपार्वत्या प्रेरिता एव सर्वशः विलासं दर्शयामास ब्रह्मणपरमेष्टिनः अधः सा पार्वती ब्रह्मदेहेन संशयः कृष्णदेहेऽपि न भविष्यति सङ्गमः अन्यदा त्वं भविष्यदिनसंशयः भविष्यदि न संशयः दत्त्वा स्त्रियां प्रभुः अन्तर्धानं ययौ श्रीमान् स्वलोकं गतवानभूद विसृज्य ताश्च तं देहं बभूवुर्नलकन्यकाः इन्द्रसेनेतिसञ्ज्ञां च लब्ध्वा तपोवनम् ययुस्तत्र च रन्ध्यस्ता ददृश्युर्मुद्गलम् त्वर्षिम् तस्य दर्शनमात्रेण बभूवु काममोहिताः मुद्गलस्याभिमानम् हि च मारुतः रमयामास तत्र स्ता भारत्यादिवराङ्गनाः तद्देहेन विसृष्टा सा बभूव द्रौपदीति च यस्मात् सा ध्रुपदा द्रौपदी स्मृदा वेदि मध्या समुद्भूता तस्मात् सा यो कृष्णवर्णा यतस्तस्मात् सा कृष्णा कृष्णा देहभिभारत्या अभिमानः सदा स्मृदः शच्यादेरभिमानस्तु तस्मिन् देहे कदाचन यस्याः स्वभर्तृसंयोगकाले च ककसत्तम अभिमानस्तदैव तस्या एव न यदा साभ्रमणे काले उमायाः पक्षिसत्तम अभिमानश्च नास्त्येव स्वाप येव रताः सदा पार्थस्य रमणे काले द्रौपद्याश्च भारत्याश्च तद्धा शच्या अभिमानद्वयम् स्मृतम् उमादेश्यामलादेश्च अभिमानक्षदिस्तदा सर्वासां स्वाप एव स्यान्नात्रकार्या विचारणा अर्जुनम् वीररूपेण प्रविष्टो वायुरेव च भारतीम् रमदे नित्यम् श्यामलाम् च चा युधिष्ठिरः सुन्दरेण च रूपेण प्रविष्टो न कुले मरुद रमदे भारतीम् नित्यम् न कुलश्च प्युषाङ्खग नीतिरूपेण चाविष्टो सह देवे च मारुदः द्रौपदीं रमदे नित्यं सह देवोप्युषाङ्खग सच्याद्या द्रौपदीदेहेनापुस्सङ्गं च मारुदः ता सा मतोऽन्यगामित्वं कृष्णादेहेन चिन्तयेद धर्मादिदेहसङ्घं च भारत्या नैव चिन्तयेद मनुजस्य च देहस्य तासां सङ्घं चिन्तयेद अपरोक्षपदीनां तु तासां लेपो नः सर्वथा अथवा मुद्गलस्येवरधिकाले खगेश्वर रमणं चक्रुरेवं ता अधो दोषो न विद्यते एकस्मिन् दिवसे वीन्द्रधर्मो वायुश्च रमणं चक्रदुःसम्यक् देहे मानद तदा प्यनन्या कामित्वं चिन्तनीयं न संशयः सुराणां सुरभोग्याश्च भोगं जानन्ति देवताः न जानन्त्येवमर्त्यांस्तु तेषु देहेषु ते शुदे पुनः निरक्षीरविकं च हंसो वेत्ति चापरः अथ स्वभर्तृसंयोगम् कृष्णा देहेन चिन्तयेत् कृष्णा देहेन्यगामित्वम् नैव चिन्त्यम् खगेश्वर इति श्रीगारुडे महापुराणे ब्रह्मकाण्डे भारत्या विशिष्टदेहसम्प्राप्त्यै कारणनिरूपणम् नाम सप्तदशोऽध्यायः ओम्